अथ त्रिपञ्चाशः सर्गः ततस्ते ददृशुर्घोरम् सागरं वरुणालयम् अपारमभिगर्जन्तम् घोरैरोर्मिभिराकुलम् मयस्य मायाविहितम् गिरिदुर्गम् विचिन्वता तेषाम् मासोऽव्यतिक्रान्तो यो राज्ञासमयः कृतः विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे उपविश्य महात्मानश्चिन्ता मापेदिरेतदा ततः पुष्पातिभार अग्रान्लता शतसमावृतान् द्रुमान् वासन्तिकान् दृष्ट्वा बभूबुर्भयशङ्किताः एव सन्तमनुप्राप्तम् प्रतिवेद्य परस्परम् नष्टसन्देशकालार्थानिपेतुर्धरणीतले ततस्तान् कपि वृद्धांश्च शिष्टांश्चैव वनौकसः वाचा मधुरया भाष्य यथावदनुमान्य च स तु सिंहवर्षस्कन्धः पीणायतभुजः कपिः युमराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः मासः पूर्णोऽलस्थानाम् हरयः किम् न प्रस्थिताः स्वपि चातीतः किमतः कार्यमुत्तरम् भवन्तः प्रत्ययम् प्राप्ता नीतिमार्गविशारदाः हितेष्वभिरता भर्तर्निसृष्टाः सर्वकर्मसु कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः माम् पुरस्कृत्य निर्याताः लिङ्गाक्षप्रतिचोदिताः इदानीमकृतार्थानाम् मर्तव्यम् नात्र संशयः हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत् अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् प्रायोपवेशनम् युक्तम् सर्वेषाम् च वनौकसा तीक्ष्णः प्रकृत्या सुग्रीव स्वामिभावे व्यवस्थितः न क्षमिष्यति नः सर्वानपराधकृतो गतान् अप्रवृत्तौ च सीतायाः पापमेव करिष्यति तस्मात् क्षममिहाद्यैव गन्तुम् प्रायोपवेशनम् त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ध्रुवम् न हिंसते राजा सर्वान् प्रतिगतानितः वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैवनः न चाहम् यौवराज्येन सुग्रीवेणाभिषेचितः नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा स पूर्वम् बद्धवैरो माम् राजा दृष्ट्वा व्यतिक्रमम् घातयिष्यति दण्डेन तीक्ष्णेण कृतनिश्चयः किम् मे सुहृद्भिर्व्यसनम् पश्यद्भिर्जीवितान्तरे इहैव प्रायमाशिष्ये पुण्ये सागर युवराजेन भाषितम् सर्वे ते वानरश्रेष्ठाः वाक्यमब्रुवन् ीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तश्च राघवः समीक्ष्या कृतकार्याम्स्तु तस्मिंश्च समये गते अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् राघवप्रियकामाय घातयिष्यत्य संशयम् रक्षमम् चापराद्धानाम् गमनम् प्रधानभूताश्च चा वयम् सुग्रीवस्य समागताः इहै सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा नो चेद्गच्छाम तम् वीरं गमिष्यामोऽयमक्षयम् पलवङ्गमानाम् तु भयार्जितानाम् श्रुत्वा वचस्तार इदम् बभाषे अलम् विषादेन बिलम् प्रविश्य वसाम सर्वे यदि रोचते वः इदम् हि प्रभूत पुष्पोदक भयं इहाय पुरंदरा न राघवा द्वा सर्वे हरय प्रतीता यथा न हनेम तथा विधानसक्त नशे श्रीमद्राणे वाक आदि का्ये कांडे किंधकांडेपंचाश